गरुडपुराणं प्रेतकाण्डं धर्मकाण्डम् अध्यायं तु श्रीकृष्ण उवाच साधुपृष्ठं त्वया भद्रमानुषाणाम् इदाय वै शृणुष्वहितो भूत्वा सर्वमे वा ऊर्ध्वदैहितं सम्यग् विभेदरहितं श्रुति स्मृति यन्नदृष्टं सुरैसेन्द्रैर्योगिभिर्योगचिन्तकैः गुह्यद्गुह्यतरं तच्च नाख्यादं कस्य चित् क्वचिद् भक्तस्त्वं हि महाभागवैनतेयं ब्रवीमि ते अपुत्रस्य गतिर्नास्तु स्वर्गो नैव च नैव च येन केनाप्युपायेन कार्यं जन्मसुदस्य हि तारयेन्नरकपुत्रो यदि मोक्षो न विद्यते स्कन्धपुत्रेण कर्तव्यो ह्यग्निदा च पौत्रकः तिलदर्भाैश्च भूम्यां वै कुडीहृदुमती भवेद पञ्चरत्नानि वक्त्रे तु येन जीवः यदा पुष्पं प्रनष्टं हि क्व गर्भधारणं गर्भधारणम् आदरा च ततो भूमौन गर्भं प्रधार्यते लेप्याद् गोमयैर्भूमिस्थिलान् दर्भान् विनिः क्षिपेद वातुरो मुक्त सर्वं दहदि किल्विशं गर्भतूलीनये स्वर्गमाधुरस्य न दर्भांस्तत्र क्षिपे द्वाध तूलीगेन्दुकमध्यदः सर्वत्र वसुधापूदा यत्र लेपो न विद्यते यत्र लेपस्थितस्तत्र पुनर्लेपेन शुध्यति यादुधानापिशाचाश्च राक्षसा क्रूरकर्मिणः अलेपं ह्यादुरं मुखुदं विशन्ध्ये देवी यो नयः नित्यहोमस्तथा श्राद्धं पादशौचं द्विजे तथा मण्डलेन विना भूम्या माधुरो मुच्यते न हि ब्रह्मविष्णुश्च रुद्रश्च श्रीर्हृदाशस्तथैव च मण्डले चोपतिष्ठन्ति तस्मात् कुर्वीदमण्डलम् अन्यथाम्रियदेवालो वृद्धस्तार्क्ष्य युवाथवा योऽन्यन्तरम् स क्रीडते वायुना सह मिश्रितं लोहिदामिश्रन्तदेवम् जन्म जीयते तस्यैव वायुभूतस्य न श्राद्धं मम स्वेदसमुद्भूतास्तिलास्तार्क्ष्यपवित्रकाः असुरादान वा दैत्या विद्रवन्दितिलैस्तथा तिलाश्वेदास्तिला कृष्णास्तिला गोमूत्रसंनिभाः दहन्तु ते मे पापानि शरीरेण कृतानि वै येक एवतिलो ये दत्तो हेमद्रोणतिलैः समः तर्पणे दानहोमेषु दत्तो भवति चाक्षयः दर्भारोमसमुद्भूतास्तिला स्वेदेषु नान्यथा देवदा नवस्तृप्ता श्राद्धेनपि दरस्तथा प्रयोगविधिना ब्रह्मविश्वं चाप्युपजीवनम् अपसव्यादिदो ब्रह्मपितरो देवदेवताः तेन ते अपसव्ये कृते सति दर्भमूले स्थितो दर्भाग्रे शङ्करं कुषे देवा कुशे स्मृताः विप्रामन्ध्राकुशवह्निस्तुलसी च खगेश्वर नैदे निर्मल्यदां यान्ति क्रियमाणाः पुनः फुना पुनः तुलसी ब्राह्मणा गावो विष्णुरेकादशी गा खग गा। भवाब्धौ मज्जदां नृणां विष्णुरेकादशी गीतातुलसी विप्रधे नवः असारे दुर्गसंसारे षट्पदी मुक्तिदायिनी तिला पवित्रमदुलं दर्भाश्चापि तुलस्य अध निवारयन्ति चैदानि दुर्गधिं हस्ताभ्यामुद्धरेद्दर्भां स्तोयेन प्रोक्षयेद्भुवि मृत्युकाले क्षिपेद्दर्भान् कारयोराधुरस्य च दर्भैस्तु क्षिप्य देयोसौ दर्भैस्तु परिवेष्टितः विष्णुलोके सवय्यादिमन्त्रहीनोऽपि मानवः तूलीं कृत्वा कृदौ पादौ संस्थितौ क्षिधि पृष्ठतः प्रायच्चित्तम् विशुद्धाग्नौ संसारे सारसागरे गोमयेनोपलिम्बेत्तु दर्भास्तरण संस्थिते यने दत्तेन दानेन सर्वं पापं व्यपोहति लवणं तद्रसं दिव्यम् सर्वकामप्रदम् नृणाम् यस्मादन्नरस सर्वे नोत्कडालवणं विना पितॄणां च प्रियं भव्यं तस्मात् स्वर्गप्रदं भवेद् विष्णो देहसमुद्भूतो यतोऽयं लवणो रसः ये दत्सलवणं दानं तेन शंसन्धियोगिनः ब्राह्मणक्षत्रियविश्यां स्त्रीणां शूद्रजनस्य च आदुरस्य यदा प्राणा नयान्दिवसुधातले लवणं तु तदा देयं द्वारस्योद्वाढनं दिवः अन्यच्च शृणु पक्षीन्द्रमृत्योरूपम् प्रपञ्चदः यस्य कालेन नो या या द्वियोगप्राणदेहयोः प्राणिनश्च स्वसमये मृत्युरत्यन्तविस्मृतिः यथा वायुर्जलधरान्विकर्षति यतस्ततः तद्वज्जलदवत्तार्क्ष्य कालस्यैव वशानुगाः सात्विकाराजसाश्चैव तामसा ये च केचन भावा कालात्मका सर्वे प्रवर्तन्ते हि जन्तुषु दित्यश्चन्द्रमः शम्भुरापो वायुशतक्रदुः अग्निकं पृथिवीमित्र ओषध्यो वसवस्तथा सजितसागराश्चैव भावभावौ च सर्पहन् सर्वे सृज्यन्ते संक्षिप्यन्ते यथा पुनः कालेन नृनं मृत्या वुपस्थिते तदा व्याधिः कश्चिदुत्पद्यते खग वैकल्यमिन्द्रियाणां च बलौ जो भवेद युगपद्वच्छिकोटि शुकदंशो भवेद्यदि तदानुमीयदे तेन पीडा मृत्युभवा खग तदः क्षणेन चैधन्ये विकले जडदां गदे प्रचाल्यन्ते तद भीभत्संतु तदारूपं भीभत्सं तु तदा रूपं प्राणैः सोधमुखं लालाकुलं भवेद अङ्गुष्टमात्रपुरुषो तदै हा तदैवनीयदे तदैव नियदे द्वदैर्यामैर्वोक्षन् स्वकं गृहं भूय एव हिदे तादमृत्युकालदशामिमाम् अश्मा प्रकुपितकाये तीव्रवायुसमीरिदः भिनत्तिमर्मस्थानानि दीप्यमानो निरिन्धनः उदानो नाम पवनस्ततः सोर्ध्वं प्रवर्तते भक्तानां बुभुक्षाणामधोगतिनिरोक्तकृत यायुर्नानृतानि चोक्तानि प्रीतिभेदकृतो न च आस्तिकश्रद्धधानश्च ससुखं मृत्युमृच्छति योनकामान्न संरम्भान्न द्वेषाधर्म मुसृजेद् मुसृजेद् यथोक्तकारी सौम्यश्च ससुखमृत्युमृच्छति मोहज्ञानप्रदाताघ प्राप्नुवन्ति महत्तमः कूढसाक्षी मृषावादी ये च विश्वास खातकाः ते मोहम् मृत्युमृच्छन्ति तदा ये वेदनिन्दकाः विभीषका पुदिगन्धा यष्टिमुद्गरवाणयः आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तदा प्राप्ते ीदृग्पथे घोरे जायते तस्य वेपधूः क्रन्द्यक्त्यविरतं सोऽपि पितृमातृसुदानपि सास्फुटा यत्नेनैकवर्णा विभासदे दृष्टिर्वैभ्राम्यदेत्रा सा च्वासा चुष्यति चाननं स तदो वेदनाविष्टस्तच्छरीरं विमुञ्चति अस्पृश्यं कुत्सनीयं च तत्क्षणादेवजायते दे उक्तं मृत्योस्वरूपं तु प्रसङ्गा धन्यदप्यधा वैचित्र्यस्योत्तरम् प्रश्रेद्वितीयस्य वदामि ते कर्मणां प्राक्तनानां तु तदसत्त्वेन भदे भवेत् भोगस्य वैचित्र्यं भ्राम्यदां प्राणिनामिह देवत्वमसुरत्वं च यक्षत्वादि दे सुखप्रदं मानुषत्वं पशुत्वं च पक्षित्वाद्यदिदुःखदम् कर्मणां तारतम्येन भवदीहखगेश्वर अत्र ते कीर्तयिष्यामि विपाकं कर्मणामहं वैचित्र्यस्य स्फुटत्वाययायिजोव संसरत्ययम् महापादकजान्घोरान्नरकान् प्राप्य दारुणान् कर्मक्षयात् प्रजायन्ते महापादकिनः क्षितौ जायन्ते लक्षणाय्यायै स्तुतानि मे शृणुसत्तम मृगाश्वसूकरोष्ट्राणां ब्रह्म योनिमिच्छति कृमिकीडपदङ्गत्वं स्वर्णहारी समाप्नुयाद तृणगुल्मतात्वं चक्रमशो गुरुतल्पदः ब्रह्मक्षयरोगी सुरापश्यावदन्तकः हे तु नखी दुश्चर्मा गुरुतल्पकः यो येन संवसत्येषां स तल्लिङ्गोऽभिजायते संवत्सरेण पदधिपदिदेन सहाचरन् संलापस्पर्श निःश्वास या जनाध्यापनाद्यौनात् पापं सङ्क्रमदे नृणां गत्वा दारान् परेषाञ्च ब्रह्मस्वमपहृत्य अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः हीनजादौ प्रजायेदरत्नानामपहारकः पत्रं च शाघिनो हृत्वा गन्थां चु सुन्दरी पुमान् मूषको धान्यहारी स्याद्यान मुष्ट्रः फलं कपिः निर्मन्द्रभोजनात्काको गृध्रो हृत्वा ह्युपस्करं मधुदं शम्फलं गृध्रो गां गोधाग्निं भगस्तथा स्याच्च्वेदपुष्टिस्त्री वस्त्र ह्यरुचि रसहारकः कांस्यहारीदु हंसस्यात्पर स्वस्य च हारकः अपस्मारी गुरोर्हन्ताक्रूरकृद्वामनो भवेद् धर्मपत्नीं त्यजन् शब्दवेधी प्राणी भवेत् क्षिदौ देवविप्र स्वापहारी पाण्डुरपरमांसभुक भक्ष्या भक्ष्यो गण्डमाली महारोगी प्रजायदे न्यासापहारी काणस्यास्त्री जीवकञ्जको भवेद कौमारदारत्यागीज दुर्भगोद्धैकमिष्टभुक वादगुल्मी विप्रयोषि गामी वा जम्बुको भवेद। शय्या हर्षात् क्षपणकपदङ्गो वस्त्रहारकः मात्सर्यादपिजात्यन्धोकपाली दीपहारकः कौशिको मित्रहन्ताचक्षयी पित्रादिनिन्दकः स्खलद्वागनृदवादेकूडसाक्षे जलोदरी मशकसोध चच्छिन्नोष्ठो विवाहे विघ्नकृद्भवेद स्याद्वाध कृशलसोऽयं चतु चत्वरे वै विन्मूत्रकृद मूत्रकृत्री दूषकस्तु कन्याया क्ले ददामि याद द्वीपी स्याद्वेद विक्रेदा वराहो याज्य याचकः यतस्तदोऽस्रान्मार्जारो कद्योदो वहदाहपः कृमिपर्युषितादस्यान्मत्सरी भ्रमरो भवेत् अग्निः स्यादितु कुष्ठि स्यादधत्ता दा दानदो वृषः सर्पो गोहारकोन्नस्य कारकस्यादजीर्णवान् जलहारी तुमस्य स्यात् क्षीरहारी बलाकेका अन्नं पर्युषितं विप्रे प्रददत् कुब्जतां व्रजेद फलानि हरदे यस्तु सन्ततिर्म्रियदेक अदत्त्वा भवे भवेन्नरः प्रवज्यागमनाद्राजन्भवेन्मरुपिशाचकः चातकोजलकर्ता स्याज्जन्मान्धपुस्तकं हरन् प्रतिश्रुत्य द्विजेभ्योऽर्ध मददजम्बूको भवेद् परिवादादिजातीनां लभदे काश्चि पी, काश्च पीं तनुम् दोग्भगफलविक्रेता वृकश्च वृषलीपतिः मार्जारोग्णं पदा स्पृष्ट्वा भगवान् परमां सभुक जलप्रस्रवणं यस्तु भिन्द्यान्मत्स्यो भवेन्नरः हरे कथं न शृण्वन्ति येन साधुजनस्तवम् तन्नार तन्नरान् कर्णमूलोऽयं व्याप्नुयान्नेतराञ्जनान् परस्याननसंस्थं यो ग्रासं हरिमन्धधीः देवोपकरणान्येनं गण्डमालिनमीहदे दम्भेनाचरदे धर्मं गजधर्मा भवेत्तु सः शिरोर्तिप्रमुखारोगा यान्ति विश्वासघातकं लिङ्गपीडीशिवस्वं च शिवनिर्माल्यमेव च स्त्रियोऽप्यनेन मार्गेण हृत्वा दोषमवाप्नुयुयुः एतेषामेव जन्तूनां भार्या त्वमुपजायते भोगान्ते खप्रदर्श्य <laughs> मे समासदः द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः एवं विचित्रैर्निचकर्मभिर्नृणां सुखस्य दुःखस्य च जन्मनामपि वैचित्र्यमुक्तं शुभकर्मदशुभम् तथा शुभा चाशुभमीरयन्ति यदत्ते सर्वम् आख्यातं यत् पृष्टोऽहमिह त्वया यदि श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांश्ये प्रतक्काण्डे श्रीकृष्णगरुडसंवादे और्ध्वदेहिकविधिकर्म विपाकयोर्वर्णनं नाम द्वितीयोऽध्यायः ओम्